प्रवाचिका मुदिता अम्प्रति श्रूयन्ताोरि अमेरिकादेश कोरियाई प्रायाद्वीपस्य पूर्णरूपेण परमाण् निरस्त्रीकरणार्थं उत्तरकोरियाया सुदृढ प्रतिबद्धताया च कृते तं प्रति सुरक्षाया वचनं प्रदास्यति अमरीकाया राष्ट्रपते डॉनल्ड ट्रम्पस्य उत्तरकोरियाया नेत् किम जोंगनस्य च एकस्मिन् संयुक्त सन्धिपत्रे हस्ताक्षरस्य अन्रूपो वर्तते जम्मूकश्मीर पुलवामा अनन्तनाग जनपदयो अद्य प्रात आतंकि आक्रमणेष् आरक्षिभटौ मृतौ अपि च केन्द्रीय रक्षित आरक्षिबलस्य पंच आरक्षिण आहता जाता हा। भारत स्पेनदेशयो महिला हॉकी दलयो पञ्च स्पर्धात्मिका श्रृंखला अद्य मैड्रिड नगर प्रारभत अमरीका दर्ष कोरियाई प्रायाद्वीपस्य पूर्णरूप परमाण् निरस्त्रीकरणार्थं उत्तरकोरियाया सुदृढ प्रतिबद्धताया च कृत तं प्रति सुरक्षाया वचनं प्रदास्यति निर्णयोऽयं अमरीकाया राष्ट्रपति डोनल्ड ट्रम्पस्य उत्तरकोरियाया नत् किम जोंग ऊनस्य च एकस्मिन् संयुक्त सन्धिपत्र हस्ताक्षरस्यान्रूपो वर्तत नौ सिंगाप्रस्य सेंटोंसा द्वीप ऐतिहासिकवार्ता अक्रुताम सन्धिपत्रे उल्लिखितमस्ति यत् अमरीकादर्श उत्तरकोरिया दर्श च शान्त्या कृत समृद्ध्या कृत नवीन सम्बन्धानां कृते च प्रतिबद्धौ स्तः अत्रान्तरे श्रीट्रम्प एकस्मिन् सम्मेलने अवादीत् यत् श्री, श्री किमेन सह तस्य वार्ता सुविचारेण अभवत् तेन प्रोक्तं यत् पूर्णरूपेण परमाणु निरस्तीकरणं भविष्यति मनोजन संचारमन्त्री मनोज सिन्हा आशां प्रकटितवान् यत् आगामि वर्ष मार्चमासं यावत् सार्ध द्विलक्ष ग्रामपञ्चायतेष् ब्रॉडबैण्ड इति अन्तर्जाल सम्पर्क सौविध्यं उपलब्धं भविष्यति असौ अद्य नवदिल्ल्यां प्रशासनस्य चत् वर्षाणाम् उपलब्धिविषये वार्ताहरान बोधति स्म तेनोक्तं यत् अनया योजनया ग्रामीणजनानां जीवने महत्वपूर्ण परिवर्तनं भविष्यति पूर्वप्रधानमन्त्रिण अटलबिहारीवाजपेयिन स्वास्थ्यं स्थिरं विद्यते असौ गतदिने दिल्लीस्थे अखिल भारतीय आयुर्विज्ञान उपचाराय प्रवेशित अभवत् चिकित्सालयस्य स्रोतोभि सूचितं यत् वाजपेयिन स्थितौ औषधानां प्रभावः दृश्यते संक्रमण समाप्तिं श्री श्रीवाजपेयी चिकित्सालय एव स्थास्यतिश्मीर जम्मूकश्मीर पुलवामा अनन्तनाग जनपदयो अद्य प्रात आतंकि आक्रमणेष् मृतौ अपि च केन्द्रीय रक्षित आरक्षिबलस्य पञ्च आरक्षिण आहता हा जाता सुरक्षासूत्रानुसारेण पुलवामा जनपदे आतंकिन वानगमस्थले जनपद न्यायालय परिसरे च आरक्षिबलेष् आक्रमणं कृतवन्त आक्रमणे द्वौ मृतौ एक आहतअ अनन्तनागे आतंकिन जंगलात मण्डीस्थले आक्रमणं कृतवन्त आक्रमणे सुरक्षाबलस्य पञ्च सैनिका आहता चिदम्बर पूर्व वित्तमन्त्री पी चिदम्बरम एयरसेल मैक्सिस धनवना प्रकरणे परिपृच्छायै अद्य द्वितीयवारं प्रवर्तन निदेशालये उपस्थितो अवर्तत प्रकरणेऽस्मिन् पी चिदम्बरम विगतसप्ताहे अपि परिपृष्ट भारत स्पेन स्पयो महिला हॉकी दलयो पञ्च स्पर्धात्मिका श्रृंखला अद्य मैड्रिड नगर प्रारभता भारतीय समयानुसारण स्पर्ध रात्रौ एकादश वादनाद् भविष्यति भारतीयदलस्य नेतृत्वं रानी रामपाल विदधाति